हरि ओम् श्री सीता रामचन्द्राभ्याम् नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याकाण्डे एकोनाशीतितमः सर्ग मन्त्री प्रभूतीनां प्रति राज्यम् अङ्गीकर्तुम् प्रस्तावो भरतेन अभिषेकसामग्रीम् परिक्रम्य श्रीराम एव राज्यम् इति प्रतिपाद्य तन्निवर्तयितुम् वने गन्तुम् व्यवस्थाकरणाय सर्वान् प्रत्यादेशदानं ततः प्रभातसमये दिवसेथ चतुर्दशे समेत्य राजकर्तारो भरतम् वाक्यमब्रवन् गतो दश रथ स्वर्गम् यो नो गुरुतरो गुरुः रामम् प्रव्राज वैज्येष्ठम् लक्ष्मणम् च महाबलम् सम्मद्य भवनो राजा राजपुत्र महायशः सङ्गत्या नापराप्नोति राजम् एतनायकम् अभिषेचनिकम् सर्वम् इदम् आदाय राघव प्रतीक्षते ताम् सजनः श्रेणयश्च नृपात्मज राज्यम् गृहाण भरत पितृपैतामहम् ध्रुवम् अभिषेचय चात्मानम् पाहि चात्मानृषभ अभिषेचनिकम् भाण्डाम् कृत्वा सर्वम् प्रदक्षिणम् भरतस्तम् जनम् सर्वम् पत्युवाच धृतव्रतः ज्येष्ठस्य राजता नित्यम् उचिता हि कुलशिनः नैवम् भवन्तो माम् वक्तुम् अर्हन्ति कुशला जनः रामः पूर्वो हि नो भापा भविष्यति महीपतिः अहम् तरण्ये वस्यामि वर्षाणि नव युज्यता महति सेना चतुरंग महाबल आनय्याम ज्येष्ठ भ्रातरम राघव मना अभेचनकुपस्कृत पुरस्कृत गे राम हेतो वनमती त्रव तम नर व्याघ्रषिच्य पुरस्कृत आनयष्या वैराम हव्येवाहमिवाधरात् न स का माम् करिष्यामि स्वामी माम् मातृगन्धिनीम् वने दुर्गे रामो भविष्यति क्रेताम् शिल्पिभिः पन्था समानि विषमाणि च दक्षिण चानुसंयान्तु पथि दुर्ग विचारकः एवम् सम्भाषमाणम् तम् राम हेतोन्नृपात्मजम् प्रत्युवाच जनः सर्वे श्रीमद्वाक्यम् अनुत्तमम् एवम् ते भाषमाणस्य पद्माश्री उपतिष्ठतम् यस्त्वम् ज्येष्ठे नृपसुते पृथिवीम् दातुमिच्छसि अनुत्तमम् तैर्वचनम् नृपात्मजे प्रभाषितम् त्वम् श्रवणे निशम्यते निपेतुरार्यनन ने नेत्र संभव ऊचुस्ते वचनमिदं निशम्य दृष्ट रामात्या वियात शोक पन्थानं नरवर भक्तिमान् जनश्च व्यादिष्टस्तव वचनात् शेपि वर्ग इत्याश्री श्रीमन्द् वाल्मीकि अधिकार्ये अयोध्याकाण्डे एकोनाशीति तमः प्रीथिता